कस्माल्लोकार्करमस्या पृथिव्याःसौ विराजः सलिलादेशेन दुग्धा योऽक्रम् न सलिलम् महित्वा योनिम् कृत्वा त्रिभुजम् शया नः वरसर्का मधुघो विराजस गुहाचक्रजम्मपराजेः ित्रेकान् चतुर्थम् ब्रह्मेण निर्यात्तपसानुकम् निर्जते यस्मिन्नेकम् बृहतः परिणामाहारिषष्ठात्पञ्चाधिनिर्मिता बृहद् बृहत्या निर्मितम् कुतोऽधिता बृहती परिमात्रा जामातुर्मात्राधिनिर्मिता मायाः यज्ञे मायाः मायायामातले परिष्वादस्य प्रतिमो यज्ञो यामन्द्रोदयैव बाधे अग्निः ततः षष्ठादामुतोऽयम् दिस्तो बा उदितोऽयम् षष्ठवन्नाः षट्वाः पृच्छापर्षष्टस्य बेमे द्वन्विर्युक्तम् यो युक्षे च विराजमाह ब्रह्मणस्य तरम् तान् नो विधेयदिधा सखिभ्यः याम् प्रच्युतामनोरज्ञाम् प्रच्यवन्तपष्णम् तवपचमाना यस्या व्रते प्रथमे दक्षवे जिधा विराणेभ्यो वन् अपप्राणीन् प्राणेन प्राणतीनाम् विरा स्वराज भवेति पश्चात् विश्वम् पृशन्ति माम् विराजम् पश्यन् नित्ये रक्ते पश्यन्ते को विराजो विदुरक्तम् प्रवेदकरतोऽन् कौ कल्पस्या क्रमान् को अस्याः कतिधा विदुग्धान्को अस्या धाव कतियाम् यष्टियम राजा प्रथमाम् यौच्चधादरति प्रविष्टा महांतो अस्याम महान्तोः अस्याम् महिमानोः अन्तर्वधूगायनव गज्जरित्री छन्दः पक्षे कुशधा बेबीशाने समानै्यो निमनुसञ्चरे सूर्यपद्री सञ्चरदः प्रजानती ये हेतुमती अजरे भूरिरे तथा विगतस्य पन्थामनुस्रागुस्त्रयोः घर्मानुरेतागोः जामेकाजम्भक्त्योर्जमेकाः राष्ट्रमेकाः रक्षति देवजूना अग्नीधो माहावदतुजातुरीराषयकल्पयन्तः गायत्रीम् दृष्टुभम् जगदेवम् पञ्चनाम् लेतव पञ्चदशः पञ्चदशेन लक्तास्तारेकवोर्ध्वीरभिलोकमेकम् षड्जाता भूताः प्रतमजन्तः षडु लाभाः षडान्ति षड्योगम् सीरमनुलावशाप षडाः वृद्ध्यावाः पृथिरे षडुर्वेः षडा गुः सेनान् षडु वास उष्णानुतन्नोः ब्रूतरजोतिरिक्तः शब्दसो वर्णाः कवचो निषेदुः सप्तच्छन्दाम् शरु सप्तदीक्षाः सप्त होमाः समिधो सप्तवधो सप्ता सप्ता सप्ताज्यादिपरिभूतमाः यन्ताः सप्तगद्रा इति शुश्रुवामरम् सप्तच्छन्दाम् निजनुतराण्यन्यो अन्यस्मिन्नध्यार्पितानि कथम् स्तोमा प्रतिष्ठम् ति स्तोमेषु कथमा पीतानि कथम् गाहायज्ञे निवृतम् याप कथम् द्रष्टः पञ्चदशेन कम्पते त्रयस्त्यंशेन जगति कथमा द्रष्टः कथमेकविंशः अष्टजाता भूता प्ररमदर्दस्याष्टेम् दत्तिजो अष्टयोः नेदनेति अष्टपुत्राष्टमी रात्रिमभिगम्यमेति इत्थम् श्रेजो मन्यमानेतमागमम् युष्माकम् सख्ये अहमस्मि सेवा समारजम् आक्रतोरस्तिव शिवः समः सर्वाः सञ्चारते प्रजानम् अष्टेन्द्रस्य षष्ट्यमस्य षीणाम् सप्त सप्त यथा अपोमनुष्या नोषधे स्वामुपन्नानुरे केवलीन्द्रायतुश्चर्वरम् पीडूषम्प्रतरम् दुहारा अथ तप्रयच्छतुरश्चतुर्धा देवान्ष्या सूरानुतृशेर को नु गोन्दरे कर्षक्यमुदामकाशः म् वृथिव्यामे कवृदेः कर्तुः कतमोनुषः एको गौरे करेकर्षिरे कामीकदाभिराः यक्षम् वृथिव्यामे कवृदेः कर्तुम् नातिरिच्यते विराड्वा इदमग्रहाधि तस्याः जाताधाः सर्वमभिेदम् भविष्यति सोदक्रामत्सागारेऽन्यक्रामत् ेवम् मेदा सोदक्रामत्साः मनीरेऽन्यक्रामद यन्त्यस्य देवा देवो दिम् प्रियो देवानाम् भवधियदेवम् मेद सोदक्रामत्सा दक्षिणाग्रोऽन्यक्रामद यद्यर्गो दक्षिणीनो वासते जो भवदीयरेवम् मेदा सोदक्रामत्सा सभायान्यक्रामद यन्त्यस्य सभाम् सभ्यो भवतिजनेवम् वेद सोदक्रामत्सा समितोऽन्यक्रामद यन्त्यस्य समितिम् सा विद्यो भवतिजदेवम् वेद सोदक्रामत्सा मन्त्रणेम्यक्रामद यन्त्यस्यामन्त्रण मामन्त्रणीयोः भवति यदेवम् वेद सोरग्रामत्सान्तरिक्षे चतुर्धा निक्रान्तातिष्ठत् ेव मनुष्या ब्रुवर्निलमेव तद्वेभय उपजीवे इति ऊर्जयः स्वधने हि सूरृदये हीराहवैः तस्या इन्दोः वर्षादे गायत्र्यभिधान्यप्रबोधाः बृहज्जम् नरञ्जग्लौस्तनामास्ताहम् यज्ञायज्ञिरम् च वामदेव्यम् जग् ओषधीरेव रथन्दरेण देवादुजो बृहदा अभो वामदेव्येन यज्ञैयज्ञयज्ञिरेण ओषधीरेवास्मै तृन्दरम् नो देव्यजोः बृहत् अवो वामदेव्यै वनस्पतीनागच्छत्ताम् वनस्पतयोग्नसा संवत्सरे समाभवत् तस्माद्वनस्पतीनाम् संवत्सरे नग्नमपि रोहति निश्चने स्याप्रीयोघ्रातम् योजनेवम् वेद सोदग्रा वत्सा पित्रेणागच्छत्ताम् इतरोघ्नदयसामासि समाभवत् तस्मात् पितृभ्यो मास्युपमास्यम् पन्थानादिजदेवम् सोदक्रा वत्स देवानागच्छत्रा देवाग्न सार्धमासे समभवत् तस्मात् देवेभ्योऽर्धमासे वषट् कुर्वन् प्रजातम् पन्थ सोरक्रा वत्सामनुष्यानागच्छतामनुष्या सद्य समभवत् तस्माहम् मनुष्येभ्यर्वरज्ञनुपहरम् दिवास्य गृहे हरम् ग्रियदेवम् वेदा सोरक्र वत्सासूरानागच्छतामसूरा उपाकरम् भवायये तोच नक्षारावत्साधीन पात्र पात्रोधार्यो मायाधो तायामसूरा उलियो सोल प्रावत्सागछत्ता वजह तस्याः यमो राजाः वत्सारेतरमात्रम् पात्रम् पात्रम। तान्तर्द्रोधोक्ताम् स्वधा मे वाधो ग ताम् स्वराम् पितरौ वर्ये मन्दिज एवम् वेदा सोदक्रा वत्सा मनुष्यानागच्छताम् मनुष्या तस्यामनुर्वैव स्मतो वर्तासीत् पृथिवी मात्रम् ताम् पृथिवी वैन्योक्ताम् कृषिम् च सस्यन्ता धोग ते कृषिम् च सस्यञ्च मनुष्या उपा कृष्ण तिरुपति तत्र वत्सा सप्तऋषेनागच्छत् तान् सप्तऋषय उपाह्वयन्त ब्रह्म तस्या सोमो राजा वत्सान्तः पात्रम् काम् बृहस्पती राम् ब्रह्म जय तपश्च सप्तऋषय उपजीवनम् ब्रह्म वत्सुपजीवनी यो चक्र वत्स देवानागच्छत् ताम् देवा उपायन्तोर्जने दे तस्या इन्द्रो वत्साधी च वदमात्रम् तामेव स विबाधोक्तामोर्जामे बाधो तामोर्जामेव ताम उपजीवन्ति उपजीवनीयो भार्य एवम् वेदा सोदक्र वत्सा गन्धर्वात् सरसा गच्छटाम् गन्धर्वात् सरस उपाक्रयन्धपुण्यगन्धरे तस्याश्च सौर्यवर्चसो वत्सारे पुष्करवर्णम् पात्रम् तामसूर्यः सौर्यवर्चरोधोक्ताम् पुण्यमेव गन्धवधोग पुण्यम् गन्धम् गन्धर्वात्सरस उपजीव्यागन्धिरुपजे सोदक्र वत्सेतरजलागच्छा वीतलजलापार्वयन्तरेति तस्या वैष्णवैको वत्सासी रामपात्रम् पात्रम् धामि तरजराजीवन्ति योधत्ते सर्वम् पाप्मानमुपजीवनीयो भवत्सा सर्वागच्छत्ता सर्वा उवायम् न विषयमत्यै तस्या वत्सादे पात्रम् पात्रम् ृतराष्ट्रैराषमेवाधो तदृशम् सर्वा उपजीवन्त्युपजीवनीयो भवति एवम् वेदा तद्यस्मा एवम् विदुषे लाभूनाभिविच्चेत् प्रत्याहन्यात् न च प्रत्याहन्यान्मनसात्त्वा प्रत्याहन्येति प्रत्याहन्यात् यत्प्रत्याहन्ति विषमेव तत्प्रत्याहम् विषमेवास्याप्रेयम् भ्रात एवम् वेदा ओम इति अष्टमम् काण्डम् समाप्तम् अथ नवमम् काण्डम् ओ दिवस्प्रेशियान्तरिक्षात् समुद्रादग्ने यत्त्वा मृतम् वसाणाम् हृद्भि प्रतिनन्दन्ति सर्वाः महत्मजो विश्वरूपमस्याः समुद्रस्य प्रोत आहो यत नैते मधुक्राणस्तदमृतम् निविष्टम् पश्यन् यस्याश्चरितम् पृथिव्याम् पृथम् अग्नेतान् मधुकषा विधग्ने मरुताः मङ्गलादप्तिः मातादित्यानाम् निहितावसूनाम् प्राणप्रजानाः अमृतस्य ना्यवर्णामधुकषा धृतादे महाम् गर्भश्च रमर्दे मधोक्कषाः मधुनियन्ददेवास्तस्यागर्भो अभवद्विश्व तञ्जातम् धरोडम् विवर्ति माता जातो विश्वाभुवनाविचष्टे कस्तम् प्रवेदक उदम् चेके दयोरस्यादकः कलशः सो मेधारो अक्षीतः ब्रह्मासु मेधासो हस्मिन् मदेत सतौ प्रवेदस उतौ चीके दयावस्यास्तनौ हिङ्करि प्रदीर्हतीवरोधाम्रीम् धर्माणविवाहावसारातिमाजुम्बज ते पयोः यामापीयनामुपसीरम् त्यावर्षाक् परावृषवारे स्मराजाः ते वर्षन्ति ते वर्षयन्ति लब्दिते कामो प्रणयित्वस्तेवाक्रजापते विषाशस्तम् निर्वशिभोम् यावधि अग्नेता मधुरहिजज्ञे मरुदारप्तिः यदा सोमप्रातः समरे अश्विरोद्भवनतिप्रियः एवामे अश्विनामर्ज आत्मनि धृरा यथा सोमो विरीये समीन्द्राज्ञोद्भवतिप्रियः एवाम इन्द्राग्ने वच्च आत्मनि ध्रियता गडासोमस्थिति प्रियः एवाम विभवो वच्च आत्मनि ध्रियता वधुजनिधूवंशीयः पयः मासम् निजवच्च सम्माहाग्ने वच्च सासजसम्प्रजजा समायूषा विद्युम्मे अस्य देवा इन्द्रो विद्यात् सह ऋषेभिः यथा मधु मधुकृतः सम्भरन्ति मधावधि एवामे अश्विनामच्च आत्मनिधिरा यथामक्षाः इदम् मधु व्यञ्जन्तिमधावधि एवामे अश्विनामत्रस्तेजोबलमोजश्च धिरिरा यद्गिरिषुपर्वमेको अश्वे रुजन्मधु पुराहायाम् निच्यमाहानायाम् यत्र मधुवर्मरे अश्वेनासारकेण वा मधूनान्तम् शुभस्वती यथावर्जस्वती वाच मामनाः निजनाम् मनो स्तनयत्वस्ते वाजापते विषाशस्त्वम् क्षिपशिभूम्याम् काम् वदभौ जीवन्ति सर्वे ते नो शेषमूर्जम् विपति पृथिवीनण्डो ओन्तरिक्षम् गर्भोद्योः कषाः विद्युत्प्रायकशो हिरण्यनो बिन्दुः यो विकषा सप्तमधूनि मधूमान् भवति ब्राह्मणश्च राश्चांश्च देहिश्च यवश्च वधूसप्तमान् वधूमान् भवति मधूमदश्च हार्यम् भवति मधूमतो लोकाञ्जयति जनेवम् वेद यदीन्द्रेस्तन यादिप्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भावदि तस्मात्माचीनोपतीतस्तिष्ठे प्रजापतेनो माबुद्ध्यस्वेणि अन्वेन प्रजानुप्रजापतिर्बुध्यते जम् वेण सपद्रहनमिषाभम् गणेन कामम् शिक्षा विषमिषाध्येन नीते सपद्नान्मपादरमष्टोतो महासा वीर्येण यन् मे मनसो न प्रियम् न चक्षुतो यन्मे महस्तिनाभिनन्दति तद्दुष्वप्नम् प्रति मुञ्जामि सपत्मे कामम् स्तुतोदहम् भेदेयाम् दुष्वप्नम् का कामरुच्चम् च कामा प्रजामस्मरतामवर्ण्यम् उग्रजीशाप्रतिमञ्चदस्मिन् अस्मभ्यम् घोरणाचिकित्सात् नृतस्व काम शृणुदस्व कामावर्त्यञ्जन्तु कामा ममारे सपद्राः तेषाम् नृत्तानावधवाम् शग्ने वास्तु निर्ता त्वम् साते कामदिरुवादनम् समर्थान् मर्यन् ृणवक्तो कामस्येन्द्रस्य करुणस्य राज्ञा विष्णोर्पयेण समितः सवेण अग्नेत्रेण प्रणोदे सपत्राम्बीवनाः अध्यक्षो वाय नाम भुग्रकृणोतुमजवसपत्रमेव विश्वे देवा मम नाथम् भवन्तु सर्वे देवाः वयमारन्तुमरिमाम् गिरवाज्यम् इदमजुषा इत्वाज्य। कामज्येष्ठायमादयध्वम् कृण्वन्तोमयसपद्नेन इन्द्राग्नेयामसरसंयोत्ताने सपद्रान् मम पादयातः तेषाम् वन्नानामधर्मे वा निर्धतम् जहितम् काम मम ये सपद्रा अन्धा सन्तु सर्वे माधेत् कामोपमय सपत्ना पुरुकमाकरन्मर्यमेधकम् मह्यम् नवन्ताम् प्रतिश्लोमयम् च दुर्निर्घृतमावर्हन्तो ते धनाम् च प्रप्लवन्ताम् छिन्ना नौरे रसायकप्रणुक्तानाम् पुनरस्थिनिवर्तनम् वाग्निरयवः सोमोयव या नो देवाया वयम् देण असर्ववीरश्च न प्रणोक्तो मित्राणाम् वैरव्यास्वा उत पृथिव्यावास्य विद्युत उग्रो देवः क्रमेण समादा ुताम् उद्यन्नादित्यो द्रवीणेन ते जासपदाम् स्वारम्बत्रिवरोधवद्वब्रह्मवितरमलिव्याध्यम् धृतम् तेन समत्रानु पशपोदीरामृणतो येन देवासूरान् प्राणोदम् दयन्ोदस्योरधर्मम् तमो निराय तेन त्वम् काम मम ये समर्त्रास्ता तस्माल्लोकात् प्रणोदस्वदूरम् यदा देवासूरान् प्राणोदम् तयतेन्द्रोदस्योरधर्मम् तमो बबाधे तदा त्वम् काममाय सपत्नास्तानस्माम् लोकात्मणोदस्वदूरम् कामो जज्ञे प्रथमो नैनम् देवावह्नवद्याः तदस्तव सिद्यायाम् विश्वं सरस्मै दे कामनमैत्रे लोके यावधीन्यावहपृथिमेरायण्णा यावदावशिष्यगुरु यावदग्निः तदस्तमसिद्यायान् विश्वः वां तस्मै देणामनमैत्रेणोमि यावेश प्रदिशो विशुः यावीराशाक्षणादिनः तदस्तमसिद्यायाम् विश्वः वाम् तस्मै देणावनमैत्रे नौमि यावभङ्गा जः कनूर गो याव ज्ञायाम् विश्वमहाम् तस्मै तेन मनमयि क्रीणोमि ज्यायाम् निमिषतो निष्ठतो ज्यायाम् समुद्रागिकामोऽन्यो ततस्ततमधिज्ञायाम् विश्वम् तस्मै तेनामनमय क्रीणोमि नैव कश्चन काममाप्नोति नाज्ञः सौर्यो नोत चन्द्रमाः यान् विश्वा महांस्तस्मै ते कामनमयत् क्रीडामि यास्ते य शिवा तन्वःकामभद्रायाभिः सत्यम् भादयद्रेणीषे ताभिश्वमस्मान्नाभिसंवेशस्वान्यत्र वामे अपवेशयाधियाः उपमिनाहम्प्रतिविदावधो परिमिदा विश्ववाराय रद्धानि विक्रेतावधि यत्ते रद्धम् विश्ववारे पाचो ग्रन्थिश्च यक्रः बृहस्पतिरिवाहम् बलम् वाचा विश्रन्धयामि कल आयमर्ष ग्रन्थिश्च कारते दृढान विद्वांसस्तेन्द्रेण विवधि वंशानाहन्ते ेते अर्धानि विच्रेतावते संरंशाणाम् पलादानाम् वै चाञ्चल्यस्य च विजम्मानस्य पर्या नर्दाने विच्रेतावती गाने चेन्द्रम् प्रवेतानि श्रितावति बुद्धीताम् वे भव हविर्दानामग्विशालम् पत्नीनाम् सदानम् सदाः सदो देवानामसि दे विशाले अक्षोपापशम् वितम् दहस्राक्षम् वेषोभते अमरन्धमभीतम् ब्रह्मणा विचेतामसि ज्ञस्त्वा जाले कृति पुत्रयेगच्छता दृढा नद्धा परिष्कृता यस्याः स्यङ्गभङ्गम् परस्परो यस्वालय निवेय सङ्गस्पति प्रजायै चक्रे त्वाशाले परमेष्ठे प्रजापतिः नमस्तस्यै नमो दा म् प्रजावधिनि देवाशाम् श्रावधिमन्तश्चादयतिवन् दे। पशुभिः सह मिजावदि प्रजावधि देवाशाम् श्रधामहि दे। अन्तराद्याञ्जपृथिवेञ्जयद्वयस्ते रसाम् प्रतिगृह्णामि तनिमा यदन्तरिक्षम् रजय स्वाभिमानम् तत्क्रन्मे उदरम् शेवभ्याः शानाम् प्रदे गृह्णामि तस्मै ऊर्जस्वती वयस्वतीता विधा विश्वान्नम् विभ्रती मालिम् नेत्र निगृह्णतःत्रिः वशाला जगतो निवशरी मिथा पृथिम् चान्निष्ठसि हस्तिरेव पद्वती इतश्च ते निवेताम्यपि लब्धवोर्लुवन् वरुणेन समुद्भिम् यत्र प्रात ब्रह्मणा शारान् निवेताम् धनुर्निवेताम् मिताम् इन्द्राग्ने रक्षताम् शाला ममृतौ सौम्यम् सदा कुलादे कुलायम् कोशे कोशः समुद्दितः रत्रमर्तो विजाय यस्माद्य श्रम् प्रजालयते याद्यक्षादृष्टक्षाषट्पक्षा जाली मेयते अष्टापक्षाङ्गानुसारामानस्य पत्नीरन्यवासरे प्रदेशेन्द्राप्रदेजे अशे त्रैम्यहिंसते ष्टब्दस्य प्रथमात्मा इमालक्ष्म गृहानु मानम्प्रदे मुदो गुरुर्वारो लघुर्भाव वधूमीवर्ता यत्र कामम् भावहि प्रा नो महि दक्षिणाया धिषशालाः जानवो महिम्ने स्वाहा देवेभ्य स्वार्येभ्यः प्रतीच्या ऋषशालाः जानवो महिम्ने स्वाहा देवेभ्यः स्वान्येभ्यः उदीत्या ऋषशालाः जानवो महिम्ने स्वाहा देवेभ्य स्वान्येभ्यः ध्रुवाया तिषशाः जानवोमहिम्मे देवेभ्य स्वाह्येभ्यः ऊर्ध्वा दिशशालाः यानवो महिम्मे स्वाहा देवेभ्यः स्वाह्येभ्यः दिशो दिश्शालाः यानवो मृम्मे स्वाहा देवेभ्यः स्वाह्येभ्यः साहस्रस्तघ्वयस्मान्मिस्वाहा रोपाणि भक्षणाः सुबिभ्रज भद्रम् दात्रे जामानाय शिक्षम्पत्यस्तवादाहार्ये प्रतिमा बभो वा प्रभोः सर्वस्त्रैव देवी पितावत्सानाम् पदे अज्ञानाम् दाहस्ये अपि न कृणोतुमाहारम् तर्वांस्तवे अपयस्वान्मसौखबन्धमुषहोऽ तमिन्द्राय पथिविर्देतमग्निर्वाहतु जातवेदाः पिता वत्सानाम् वतेरज्ञानामसोः पितामहनाम् गर्गराणाम् वत्सो जरायुप्रजर्ेयुष आमिक्षा घृतम् दब्दस्य लेताः देवानाम् भागवोपानाहेषो गोपाम् सपोषधीयाम् घृतस्य सोमस्य पक्षमा वृणीतशक्रो बृहन्नद्रेलभवद्यच्छरीरम् सोमेरपूर्णम् कलशम् विभर्णितष्टा रूपाणाम् गरितापरशूरा शिवास्ते सन्तप्रजवना निहयादिवान्या आस्मभ्यम् सदिते यच्छयाज्यम् विभर्जिघृतमस्य नितसहस्रोषस्तमो यज्ञवान् इन्द्रस्य रूपेणस्तो अस्माङ्गे वा शिवहेतो दत्तः इन्द्रस्य जोपरुढश्च बाहो बृहस्पयम् संहृतमे तमाः धीराः कवयोजयिणः देवेनादयामिन्द्रम् ताम् सरस्वन्तः शास्त्रम् ननेकमुखा ददातिरोणरे शभमाजुहोति बृहस्पतिः सविता देवयोर्वादोत्मता अन्तरिक्षे मनसा जुहोमिवर्दने तस्या निषभस्याङ्गानि ब्रह्मादम् स्तामनोमत्या भगस्यास्तामनो वृजौ अष्टीवन्दाः ब्रवीयम् नितौ केवलिते वसदाधीलादित्यानाम् श्रोणी आस्ताम् बृहस्पदेः पुच्छम्मातस्य देवस्य देन दो मात्यः गुदाः आसन्सि निल्याः शोर्याः स्व्रुवन् उद्धा तु ब्रवन्मनऋषभम् निरलगल् कल्पयन् क्रोढाः तेज्या विशंसस्य रामस्य कलशो धृतः देवाः सङ्गत्य सर्ववृषभम् निरगल्पयन् ते गुस्थीकाः सर्वे शृङ्गाःभ्याम् रक्षऋत्यवर्जिम्हन्ति चक्षुः शृणोति भद्रम् कर्णाःभ्याम् गवाम् जदीरज्ञः शतराजम् सजरैरम् गन्वन्त्यग्ः जिम्वन्ति देवायो ब्राह्मणर्षभमाः जुहोति ब्राह्मणेभ्यर्षयम् दत्त्वारीरेवनाः पश्यन् सो अज्ञानाम् श्रे गोष्ठैवे पश्यते भावः सन्तव्यजा सन्ततोः वस्तु तनो बलम् तत्सर्वे मनो मन्यन्ताम् देवारेणिने अयम् विवाहीन्द्रेभ्रजिन्द्रा अयम् धेनुम् सुदृढा नित्यवत्सरम् न सम् दुहामिपश्चिदम् फरो दिवः विषङ्गरूपो न भ्यम् दरः प्रजा राजश्च गोषे अभिनः सजता उपयोपवञ्चनास्ति गोष्ठ उपञ्चन उपवर्षस्य वीर्यम् एतम् गोजुवाहनम् मृदे क्रीडम् तैश्च तव ललितजनुषाः सुभागायश्च सुकृतान् लोकमपि गच्छतु प्रजानन् ते यत्त्वा तमान् शिवबुधा महान् यो नागमात्रपदाम् तृतीयम् इन्द्राय भागम् वलित्वा नयाम् यस्मिन् यज्ञे यजमानाय सूर्यम् येनो दृढम् नृताम्भस्मानागतो यजमानः शरीराः प्रपदोश्चरितम् यश्चैः शभैराक्रमताम् प्रजानन् ते हत्वा तमाहंसु बुधा विपश्यन्नजो अनर्च्यामेण त्वम्बेस्तर्यथा पर्वादि रामाभि भावेन्द्रु अपरुतकल्पनेनश्रयेणम् यथा कुम्भे मध्यग्नौ श्रयाम्याकमवधेह्येन पर्यादथाग्निनाशमितार श्रुतो गच्छतु सुकृतायत्र अग्नेर प्ताग्निरग्निरजम् ब्रभुविध ज्योतिष्मन्तमभिलोकम् जनयितम् अजो अग्निरजमुद्योतिराहुरजम् जीवता ब्रह्मणे अजस्तमाम् शपहन्ति दूरमस्मिल्लोके शब्दधाः नेन दत्तः पञ्चरोदनः पञ्चधा विक्रमदामाक्रंशमाहारस्त्रीणि ज्योतिंषि वीणाम् सुहृताम् प्रेहिमध्यम् त्रिदीरेणाश्रजस्व अजारोः सुकृताम् यत्र लोकस्य नभोदशब्दोति दुर्गाण्ये सः पञ्चरोदनो ब्रह्मणे नीयमान नः सदातारम् तृप्त्याः दर्पयाति अजस्त्री नागेत्रि दिवेत्रि पृष्ठे नाकस्य पृष्ठेदमांसम् ददाति पञ्चोदरो ब्रह्मणे दीयमाहानो विश्वरो बाधे दुःखास्येका एतर्नो ज्योतिपिटलस्त्रीपञ्चोदरम् ब्रह्मणे जम् ददाति अजस्तमांशपहन्ति दूरमस्मौ लोके सद्दधा दत्तः सुकृताम् लोकमेत्सन् पञ्चोदरम् ब्रह्मणे चन्द्रदादि संव्याप्तिमभिलोकम् जनयितम् शिवोस्मभ्यम् प्रतिगृहीतोऽस्तु अजोऽस्याष्टशोकाग्निप्रो विप्रस्य सहतो कश्चित् इष्टम् पूर्धमभिमूर्तम् मषग्तम् दद्देवालेतु शक्र कल्पयन्तु अमोतम् वासो तथा लोकान् समाप्नोतिने दिव्याले च पार्थिव एतास्ताजोपायम् तु धा सौम्या देवीर्घटपृष्टावधश्च स्वभाव पृथिवी तस्याम् नाकस्य पृष्ठेति सप्तरस्मो अजो लोकमन्येन पुण्यम् प्रज्ञेहम् येन सहस्रम् महति तेनेमै यज्ञम् महा महस्तद्देवे शुगन्धवे स्वर्गे लोके दधाति पञ्चोदना निर्णेतिम् बाधमानः तेन लोकान्सू ्राहम् हेरी दधेजम् च विक्षुजा विप्रचर्गोदना भजस्य सर्वम् नग्नेतु लोकेन नेतान्नः सङ्ग्रमानेपथीना ने अजो वा इदमङ्गे व्यक्रमदो मद्यो पृष्ठम् अन्तरिक्षम् मध्यम् निज पार्श्वे स मन्द्रो कुक्षी सत्यम् च एषपरिमितो यज्ञो निः पञ्चहोदरः अपरिमितमेव यज्ञमाप्नोत्यपरिमितम् लोकम् गन्धे योऽयम् पञ्चहोदरम् दक्षेणा ज्योतिषम् ददाति वीरमेवास्य रूपम् भवति निीरम् सङ्गापयति इषम् महऊर्जवस्मे दुहे यो ओदम् पञ्चवोदनम् दक्षिणा ज्योतिषं ददाति पञ्च रुक्मा पञ्च नवादिवस्त्रा पञ्चाः स्मै दे नवः कामनुभाः भवन्ति यो ओदम् ददाति पञ्च रुक्मा ज्योतिरस्मै भवन्ति मर्मबाधान् शन्मेव भवन्ति स्वर्गल्लोकमस्मि तेन ओजम् पञ्चोदनम् दक्षीणा ज्योतिषं ददाति यावूर्वम् पतिम् नृत्वा धान्यम् इन्दते परम् पञ्चोदनम् चन्दलोरः समानलो लोको जम् पञ्चोदरम् दक्षीणा ज्योतिषम् ददाति अनुपूर्ववत्साम् दत्वा दे देयम् दिल्लमुत्तमात्मानम् पितरम् पुत्रम् पौत्रम् पितामहम् जायाञ्जलित्रे मादरम् ये श्रियास्तानुपक्वये यो वे नेदाः धन्नावर्तुम् वेदा एष वे नेदाः घोरावर्तम् यदः पञ्चहोदरः विरेवाद्रेयस्य भ्रातृर्यस्य श्रियम् दहति भवत्यात्मना ेयस्य भ्रातुम् यस्य श्रियमादत्ते यथ कुर्वन् न वर्तुर् यदः मञ्जवोदनः देवाप्रेयश्च भ्रातुम् यश्च श्रियम् दहति दक्षिणा ज्योतिरम् ददाति यो वै संयन्तम् सय्यदेव प्रियस्य भ्रातुम् यस्य श्रिया एणवेण्यन्नाभक्तुं यः पञ्चगोदरः देहाप्रियस्य भ्रातुम् यस्य श्रियम् दर्यात्मना योजम् नोदरम् नक्षेणा ज्योतिरन्दरादे यो वे बिन्वन्दन्नाभक्तुम् वेरा बिम्बते बिंवदे ेयस्य भ्रातम् यस्य श्रियमादत्ते एवेन्ना वर्तम् यदः पञ्चहोदरः देवाप्रेयस्य भ्रातम् यस्य श्रियम् दह देवात्यात्मनाः योगोदरम् दक्षिणाज्योतिरन्तरा यो वा उद्यन्तन्ना वर्तम् वेदा उद्यमे उद्यमे देवाप्रेयस्य भ्रातम् यस्य श्रियवादत्ते उद्यन्नावर्तुम् यजः पञ्चहूदनः देवा प्रियस्य भ्रातुर्यस्य श्रियम् दहरिमर्त्यात्मा योम्बण्डहोदनम् दक्षिणा ज्योतिषन्दधादि यो वाभिवर्ना वर्तम् वेदा अभिभवन्दे भुभवन्ति वा ोन्नावर्तन यदः पञ्चगोदरः देवाप्रियस्य भ्रातृम् यस्य श्रियम् दहति भवत्यात्मा योजम् पञ्चगोदरम् दक्षेया ज्योतिरन्तरा अनिरञ्जपरपञ्चदरा सर्वे सान्द्रह्नन्दुखवेदम् स्ते रक्षन् कृतव्या वेदम् ताभ्याज्यम्